शिवगीता सप्तमोऽध्यायः श्रीराम उवाच भगवन् यन्मया पृष्टं विभो अत्रोत्तरं मया लब्धं नैव महेश्वर परिचिन्नपरीमाणे देहे भगवतस्तव उत्पत्तिः पञ्चभूता तितिल्वा वा विलयः कथम् स्वस्वाधिकारसम्बद्धाः कथम् नामस्तितासुराः ते सर्वे त्वम् कथम् देव भुवनानि चतुर्दश त्वत्त श्रुत्वापि देवात्र संशयो मे महान्भू अप्रत्यायितचित्तस्य संशयम् चेत्तुमर्हसि श्रीभगवानुवाच वटबीजेति सूक्ष्मेऽपि महावटतरुर्यता सर्वदास्तेऽन्यथा वृक्षः उत आयाति तद्वद तद्वन्ममतनौ राम महासैन्दवपिण्डोऽपि जले क्षिप्तो विलीयते न दृश्यते पुनःपाकात् आया पूर्ववते आयाति प्रात आलोको जायते सूर्यमण्डलात् एवं मत्तो जगत्सर्वम् जायते अस्ति विलीयते सकलं सकलम् राम तद्वज्जानीहि सुव्रत श्रीराम उवाच कतितेऽपि महाभागदिग्जडस्य यथादिशि निवर्तते भ्रमो नैव तद्वन्मम करोमि किम् श्रीभगवानुवाच मयि सर्वं यताराम राम जगदेतच्चराचरम् वर्तते तद्दर्शयामि न द्रष्टुम् क्षमते भवान् दिव्यम् चक्षुप्रदास्यामि तुभ्यम् न चरतात्मज तेन पश्य भयम् त्यक्त्वा मत्तेजोमण्डलम् ध्रुवम् न चर्मचक्षुषाद्द्रष्टुम् शक्यते मामकम् अहः नरेण वा सुरेणापि अनुग्रहं विना सूतौ उवाच इत्युक्त्वा प्रददौ तस्मै दिव्यं अत अथ अदर्शयदेतस्मै वक्त्रम् पातालसन्निभम् विद्युत्कोटिप्रभं दीप्तं अतिभीमं भयावहम् तद्दृष्ट्वैव भयाद्रामो जानुभ्यामवनिम् गतः प्रणम्य दण्डवद्भूमौ तुष्टावच पुनः पुनः अथ उत्ताय महावीरो यावदेव प्रपश्यति वक्त्रम् पुरभितस्तत्र अन्तर्ब्रह्माण्डकोटयः चटका इव लक्ष्यन्ते ज्वालामाला समाकुलाः मेरुमन्दरविन्द्याद्या गिरयः सप्तसागराः दृश्यन्ते चन्द्रसूर्याद्याः पञ्चभूतानि तेऽसुराः अरण्याणि महानागा पुवनानि चतुर्दश प्रति प्रतिब्रह्माण्डमेवम् तत दृष्ट्वा दशरथात्मजः सुरासुराणाम् सङ्ग्रामाः तत्र पूर्वापरानपि विष्णोर्दशावतारांश्च तत्तत्कर्माण्यपि द्विजा पराभवांश्च देवानाम् पुरदाहम् महेशितुः उत्पद्यमानान् उत्पन्नान् सर्वानपि विनश्यतः दृष्ट्वा रामो भयाविष्टः प्रणनाम पुनःपुनः उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः अथ उपनिषदांसारैः अर्थैः तुष्टापशङ्करम् श्रीराम उवाच देवप्रपन्नातिहरप्रसीद प्रसीदविश्वेश्वरविश्ववन्द्य प्रसीद गङ्गाधरचन्द्रमौळे मांत्रागिसंसारभयादनाथ त्वत्तो हि जातम् जगदे तदीश तुय्येव भूतानि वसन्ति नित्यम् त्वय्येव शम्भो विलयम् प्रयान्ति भूमौ यथा वृक्षलथादयोऽपि ब्रह्मेन्द्ररुद्राश्च मरुद्गणाश्च गन्धर्वयक्षासुरसिद्धसङ्गाः गङ्गाधिनद्यो वरुणालयाश्च वसन्ति शूरिम् तव वक्त्रयन्त्रे त्वन्मायया कल्पितमिन्दुमौले त्वय्येव त्रिष्यत्वमुपैति विश्वम् प्रान्त्या जनः पश्यति सर्वमेतत् विना प्रकाशम् तव देवदेव न दृश्यते विश्वमिदम् क्षणेन अल्पाश्रयो नैव बृहन्तमर्थम् नुरेको न हि विन्द्यशैलम् त्वद्वक्त्रमात्रे जगदेतदस्ति त्वन्माययैवेति विनिश्चिनोमि रज्जौ भुजङ्गो भयदो यतैव न जायते नास्ति न चैति नाशम् त्वन्मायया केवलमात्मरूपम् तथैव विश्वम् त्वयिनीलकण्ठ विचार्यमाणे तव यशरीरम् आधारभावम् तदप्यवश्यम् पदविद्ययैव पूर्णश्चिदानन्दमयो यतस्त्वम् पूजेष्टपूर्तादिवरक्रियाणाम् भोक्तुः फलम् यच्छसि विश्वमेव ऋषैदेवम् वचनं पुरारे त्वत्तोऽस्ति भिन्नम् न च किञ्चिदेव अज्ञानमूढा मुनयो वदन्ति पूजोपचारादिबहि क्रियाभिः दोषम् गिरीशो भजतीति मिथ्या उतत्वमूर्तस्य तु भोगलिप्सा किञ्चिद्दलम् वा शुलक उदकम् वा यत्स्वम् महेश प्रतिगृह्य दत्से त्रैलोक्यलक्ष्मीमपि सर्वम् त्वाविद्या कृतमेव मन्ये व्याप्नोषि सर्वा विदिशो दिशश्च त्वम् विश्वमेकपुरुषपुराणः नष्टेऽपि तस्मिन् तव विनष्टे नभसो यतैव यतैकमाकाशकम् अर्कबिम्बम् क्षुद्रेषु पात्रेषु जलान्वितेषु वचति अनेकप्रतिबिम्बभावन् तथा त्वमन्तःकरणेषु देव संसर्जने वा आप्यवने विनाशे विश्वस्य किञ्चित्तव अनादिभिः प्राणभृतामदृष्टैः तथापि तत् स्वप्नवत् षी तूलस्य सूक्ष्मस्य जडस्य भोगो देहस्य शम्भो न चिदम्बिनास्ति अतस्त्वदापणमातनोति श्रुतिपुरारे दुःखदुःखयोः सदा नमः सच्चिदम्भोधिहंसाय तुभ्यम् नमः कालकालाय कालात्मकाय नमस्ते समस्तागसंहारकर्त्रे नमस्ते मृषाचित्तवृत्त्यैकभोक्त्रे सूत उवाच एवम् प्रणम्य विश्वेशं पुरतः प्राञ्जलिस्थितः विस्मितः परमेशानं जगाद रघुनन्दनः श्रीराम उवाच उपसंहर उपसंहरविश्वात्मन् विश्वरूपमिदम् तव प्रतीतम् जगत् एकात्म्यम् शम्भो भवदनुग्रहात् श्रीभगवानुवाच पश्य महाबाहो मत्तो नान्योऽस्ति कश्चन सूतौ उवाच उत्युक्त्वैव उपसञ्जह्रे स्वदेहे देवतादिकान् मीलिताक्षः यावद्रामह यावद्रामः प्रपश्यति तावदेव गिरेशृङ्गम् व्याघ्रचर्मोपरिस्थितम् ददर्श पञ्चवदनम् नीलकण्ठम् त्रिलोचनम् व्याघ्रचर्म अम्बरधरम् भूतिभूषितविग्रहम् फणिकङ्कणभूषाट्यम् नागयज्ञोपवीतिनम् व्याघ्रचर्म उत्तरीयम् च विद्युत्पिङ्कजटादरम् एकाकिनम् चन्द्रमौळिम् वरेण्यम् अभयप्रदम् चतुर्भुजम् कण्ठपरशुम् मृगहस्तम् जगत्पतिम् अत आज्ञया पुरस्तस्य प्रणम्य उपविवेश उपविवेशसः अताह रामं देवेशो यद्यत्प्रष्टुमबीच्छसि तत्सर्वम् पृच्छ राम त्वम् मत्तो नान्योऽस्ति ते गुरुः इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे विश्वरूपदर्शनं नाम सप्तमोऽध्यायः